भागवत महापुराणं महात्म्यम् अथ द्वितीयोऽध्यायः यमुना और पत्नियों का संवाद कीर्तनोत्सव मे जी का प्रकटना ऋषय उचहो शाण्डिल्ये तौ समादिस्य परावृत्ते समाश्रमम् किं कथं चक्रतुस्तोतु राजानौ सुततद्वदं सुतुवाच ततस्तु विष्णुरातेन श्रेणीमुख्या सहस्रशः इन्द्रप्रस्थातसामानाय मथुरास्थानमापिताह माथुरान ब्राह्मणास्तत्र वानराश्च पुरातनान विज्ञायमाननीयत्वं तेषु स्थापितवान् स्वरान् वज्रस्तु ससहायेन शाण्डिल्यस्याप्यनुग्रहात् गोविन्दगोपगोपीनां लीलास्थानान्यनुक्रमात् विज्ञायाभिधया स्थाप्य ग्रामान्नावासयद्बहुन् कुण्डकूपादिपुरतेन शिवादिस्थापनेन च गोविन्दहरिदेवादिस्वरूपारोपणेन च कृष्णैकभक्तिं से राज्ये तात च मुमोदः प्रजास्तु मुदितास्तस्य कृष्णकीर्तनतत्पराः परमानन्दसम्पन्ना राज्यम् तस्यैव एकदा कृष्णपत्यस्तु श्रीकृष्णविराहातुरा कालिन्दीं मुदितां वीक्ष्य प्रप्रपक्षुर्गत सराः श्रीकृष्णपत्न्यौचुः यथा वयं कृष्णपत्न्यस्तथा त्वमपि शोभने दयं विरहदुःखार्ता त्वं न कालिन्दी तद्वद तच्छ्रुत्वा स्मयमाना सा कालिन्दीवा किमब्रवीत् सा पत्न्यम् व्यक्ष तत्तासाम् करुणा परमाणसाम् आत्मा रामस्य कृष्णस्य ध्रुमात्मासिराधिका तदा दास्यप्रभावेन विरहोऽस्मान् न संस्पृशेत् तस्या एवांश विस्तारा सर्वाः श्रीकृष्णनायिकाः नित्यसम्भोग एवास्ति तस्या सा मुख्ययोगतः स एव सा सैवास्ति वंशी तत्प्रेमरूपिका श्रीकृष्णनखचन्द्रालिं लिङ्ग्रालीशङ्काश्चन्द्रावलिस्मिता रूपान्तरमगृहिणां तयो सेवातिलालता रुक्मिण्यादिसमावेशो मयात्रैव विलोकितः युष्माकमपि कृष्णेन विरहो नैव सर्वतः किन्तु एवं न जानीत तस्माद् व्याकुलतामिताः एवमेवात्र गोपीनाम् अक्रूरावसरे पुरा विरहाभास ए वासे उद्धवेन समाहितः तेनैव भवतीनां चेद्भवेदत्र समागमः तर्हि नित्यं सुकान्तेन विहारम् अपि लप्स्यता श्रुत्वा च देवमुक्ता सुता पत्न्या सपत् प्रसन्नां पुनरब्रुवन् प्रे उद्धवालोकनेतात्मा प्रेषं सङ्गमलालसा श्रीकृष्णपत्न्यै ऋचुः धन्यासीसखिकान्तेन यस्या नैवासिविच्युतिः यतस्ते स्वार्थसंसिद्धे तस्या दास्यो बभूवि माम् परन्तु उद्धवलाभे स्यान् अस्मत्सर्वार्थसाधनं तथा वदस्वकालिन्दे तल्लाभोऽपि यथा भवेत् श्रुत्वाच एवमुक्ता तु कालिन्दी प्रत्युवाचाथ तास्तथा स्मरन्ते कृष्णचन्द्रस्य कलाशोदशरूपिणी साधनभूमिर्वदली व्रजता कृष्णेन मन्त्रिणे प्रोक्तां तत्रास्ते स तु साक्षान् तद्वैनं ग्राहयन् लोकान् फलभूमिर्व्रजभूमिर्दत्ता तस्मै पुरैः सहस फलमिह तिरोहितं सत्तति दीहेदानीं स उद्धवो लभ्य गोवर्धनं गिरिणि कृते सखे स्थले तद्रज कामः तत्रत्याङ्कुर्वल्लीरूपेणास्ते आत्मो सवरुन् रूपत्वं भरिणा तस्मै समर्पितं नेतम् तस्मात्तत्र स्थित्वा कुसुमशरपरिसरे सभद्राभि वीडावीर् मृदङ्गैः कीर्तनकाव्यादि सरससङ्गितैः उत्सव आरभ्यो आरब्धयो हरिरतलोकान् समानाय तत्रोद्धवावलोको भविता नियतं महोत्सवे वितते योऽष्माकीणामभिमतसिद्धिं भविता स ये सवितानां श्रुत्वाच इति श्रुत्वा प्रसन्नास्ता कालिन्दीम् अभिवन्द्यतन् कथयामासुरागत्य भज्रं पते परीक्षितं विष्णुरातस्तु तच्छ्रुत्वा प्रसन्नस्तद्युतस्तदा तत्रैवागत्य तत्सर्वं कारयामास सत्वरं गोवर्धनादूरेण वृन्दारण्ये सखे स्थले प्रवृत्तकस्माम्बोधौ कृष्णसङ्कीर्तनोत्सवः वृषभानुसृताकान्तविहारे कीर्तनश्रियां साक्षादेव समावृत्ते सर्वे धन्यशोभवन् ततः पश्यस्तु सर्वे सूत्रृणगुल्मल्साचराचयात् आजगामोद्धवसृग्भिः श्यामपीताम्बरावृतः गुञ्जामालाधरो गायन् वल्लवीवल्लभम्भुः तदागमनतो रेजेऽभिसंकीर्तनो शवः चन्द्रिकागमतो यद्व स्फाटिकाट्टारभूमणिः अथ सर्वे सुखाम्बोधो मग्ना सर्वं विषं मरुः तलेनागतविज्ञाना दृष्ट्वा श्रीकृष्णरूपिणम् उद्धमं पूजयाश्चक्रो प्रतिलब्धा मनोरथाः ते श्रे स्कन्धे मा पुराण एकशीतिसहस्रायां शयितायां द्वितीये वैष्णवखण्डे श्रीमद्भागवतमहात्म्ये गोवर्धनपर्वतसमीपे परीक्षितादीनाम् उद्धवदर्शनवर्णनं नाम द्वितीयोऽध्यायः